अथैकपञ्चाशः सर्गः इत्युक्तः क्रोधताम् राक्षस्तप्त काञ्चनकुण्डलः राक्षसेन्द्रोऽभिरुद्रावपतकेन्द्रममर्षणः स सम्प्रहारस्तु मुलस्तयोस्तस्मिन् महामृधे बभूववातोद्धृतयोर्मेघयोर्गगने यथा तद्बभूवाद्भुतम् युद्धं गृध्रराक्षसयोस्तदा समक्षयोर्माल्यवतोर्महापर्वतयोरिव ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः अभ्यवर्षन् महाघोरैर्गृध्रराजम् महाबलम् जटायः प्रतिजग्राह रावणास्त्राणि संयुगे तस्य तीक्ष्णनखाभ्याम् तु चरणाभ्याम् महाबलः चकार बहुधा गात्रे व्रणान् पतगसत्तमः अथ क्रोधाद्दशग्रीवो जग्राहदशमार्गणान् मृत्युदण्डनिभान् घोरान् छत्रोर्निधनकाङ्क्षया सतैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः बिभेदनिशितैस्तीक्ष्णैर्गृध्रम् घोरैः शिलीमुखैः स राक्षसरथे पश्यञ्जानकीम् बाष्पलोचनाम् अचिन्तयित्वा बाणाम् स्तान् राक्षसम् समभिद्रवत् रतोऽस्य सशरम् चापम् मुक्ता मणिविभूषितम् चरणाभ्याम् महातेजाबञ्जपतगोत्तमः महा। ततोऽन्यद्धनुरादाय रावणः क्रोधमूर्च्छितः पवर्षशरवर्षाणि शतशोथसहस्रशः शरैरावारितस्तस्य संयुगे पतगेश्वरः कुलायमभिसम्प्राप्तः पक्षिवच्च तदा सतानि शरजालानि पक्षाभ्याम् तु विधूयः शरणाभ्याम् महातेजा बभञ्जास्य महद्धनुः तच्चाग्निसदृशम् दीप्तम् रावणस्य शरावरम् पक्षाभ्याम् च महातेजा व्यधुनोत्पतगेश्वरः काञ्चनो रक्षदान् स्य जपसम्पन्नाम् जघान समरे बली पथत्रिवेणुसम्पन्नम् कामकम् पावकार्चिषम् मणिसोपानचित्राङ्गम् बभम् च च महारथम् पूर्णचन्द्र प्रतीकाशम् छत्रम् च व्यजनैः सह पातयामास वेगेन ग्राहिभीराक्षसैः सह सारथेश्चास्य वेगेन तुण्डेन च महच्छिरः पुनर्व्यपहनच्छीमान् पक्षिराजो महाबलः स भग्नधन्वा विरथो हता श्वो हतसारथिः अङ्केनादाय वैदेहीम् पपात भुवि रावणः दृष्ट्वा निपतितम् भूमौ रावणम् भग्नवाहनम् साधु साध्विति भूतानि गृध्रराजमपूजयन् परिश्रान्तम् तु दम् दृष्ट्वा जरया पक्षि उत्पपात पुनर्हृष्टो मैथिलीम् गृह्य रावणः तम् प्रहृष्टम् जनकात्मजा गच्छन्तम् खड्गशेषम् च प्रणष्टःतसाधनम् गध्रराजः समुत्पत्त्य रावणम् समभिद्रवत् समावार्य महातेजा जटायुरिदमब्रवीत् वज्रसंस्पर्शबाणस्य रामस्य रावण अल्पबुद्धेः हरस्येनाम् वधाय खलु रक्षसा समित्रबन्धुः सामात्यः सबलः स परिच्छदः विषपाडम् शीघ्रमेव विनश्यन्ति यथा त्वम् विनशिष्यसि वध्वस्त्वम् कालपाशेण क्व गतस्तस्य वधाय बडिशम् जलजो यथा न हि जातु दुराधर्षौ काकुत्स्थौ तव तु राघवौ यथा त्वया कृतम् तस्कराचरितो मार्गो नैष वीरनि सेवितः तिष्ठ रावण शयिष्यसे हतो भूमौ यथा भ्राताकरस्तथा परेत काले पुरुषो यत्कर्म प्रतिपद्यते विनाशायात्मनो धर्म्यम् प्रतिपन्नोऽसि कर्म तत् पापानुबन्धो वै यस्य कर्मणः को भूर्भगवानपि एवमुक्त्वा शुभम् वाक्यम् जटायुस्तस्य रक्षसः निपपातभृशम् पृष्ठे दशग्रीवस्य वीर्यवान् तम् गृहीत्वा नखैस्तीक्ष्णैर्विदारसमन्ततः अधिरुढो गजारोह यथा स्याद्दुष्टवारणम् विददारनखैरस्य तुण्डम् पृष्ठे समर्पयन् केषांश्चोत्पाटयामास नखपक्षमुखायुधः स तथा गृध्रराजेन क्लिश्यमानो अमर्ष स्फुष सन्कंपतचराक्षसा सज्य वैदे वानाक रावण तलेनाजघात जटा क्रोधमूर्टास्तमतिक्रम्युंडेना खगाधिपोंद व्यपरदरीद सञ्चिन्नबाहोः सद्यो वै बाहवः सहसा भवन् विषज्ज्वालावलीयुक्ता वल्मीकादिमपन्नगाः ततः क्रोधाद्दशग्रीवः सीतामुत्सृज्य वीर्यवान् मुष्टिभ्याम् चरणाभ्याम् च गृध्रराजमपोथयत् ततो मुहूर्तम् सङ्ग्रामो बभूवातुलवीर्ययोः राक्षसानाम् च मुख्यस्य पक्षिणाम् प्रवरस्य च तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः पक्षौ पादौ च पार्श्वौ च खड्गमुद्धृत्य सोच्छिनत् सच्छिन्नपक्षः सहसा रक्षसारौद्रकर्मणा निपपातमहागृध्रो धरण्यामल्पजीवितः तम् दृष्ट्वा पतितम् भूमौ क्षतजार्द्रम् जटायुषम् अभ्यधावत वैदेही देही स्वबन्धुमिव दुःखिता तन्नीलजीमूत निकाश कल्पम् स पाण्डुरोरस्कमुदार वीर्यम् ददर्श लङ्काधिपतिः पृथिव्याम् जटायुषम् महीतले निपातितम् रावण पुनश्च सङ्ग्रह्य शशिप्रभाननारुरोदसीता जनकात्मजातदा इत्यार्षे श्रीमद् रामायणे वाल्मीकीये अरण्यकाण्डे एकपञ्चाशत्